सम्भृता चैव विद्येयं तपसेह मया पुरा निवेदयिष्येतामद्य प्राणदाय महात्मने संस्तम्भयित्वा तरसा जितं शरणमागतं योरिपुं योजयेत् प्राणैः कल्याणं किं न सोऽहति चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ददौ स मम विश्वावसुर्दौ सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति आगमोऽस्या प्रोक्तो वीर्यं प्रतिनिबोधमे यच्चक्षुषा द्रष्टुमिच्छेत् त्रिषु लोकेषु किञ्चन तत्पश्येत् यादृशं चेच्छेत् तादृशं द्रष्टुमर्हति एकपादेन षण्मासान् स्थितो विद्यां लभेदिमाम् अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रुते कृते विद्यया हिनया राजन्वयं रुभ्यो विशेषिताः अविशिष्टाश्च देवानामनुभावप्रदर्शिनः गन्धर्वजानामश्वानामहं पुरुषसत्तम भ्रातृभ्यस्तवतुभ्यं च पृथक्दाता शतं शतं देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवा क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः पुराकृतं कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणं दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि